अथ त्रयोदशोऽध्यायः शौनक उवाच किमर्थम् राजशार्दूलः स राजाजनमे जयः सर्पसत्रेण सर्पाणाम् गतोन्तम् तद्वदस्व निखिलेन यथा तत्त्वम् सौते सर्वमशेषतः आस्ति कश्चिद्विजश्रेष्ठः किमर्थं जपताम् वरः मोक्षयामास प्रदीप्ताद्वसुरेतसः कस्य पुत्रः स राजासीत् सर्पसत्रम् य आहरत स च कस्य पुत्रोऽभिधस्व सौतिरुवाच महदाख्यानमास्तीकं यथैतत् प्रोच्यते सर्वमेतदशेषेण शृणुमेव दतां वर शौनक उवाच श्रोतुमिच्छाम्यशेषेण कथामेताम् मनोरमाम् आस्ति कस्य पुरा नर्षेर्ब्राह्मणस्य यशस्विनः सौतिरुवाच इतिहासमिमम् विप्राः पुराणम् परिचक्षते कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिषु पूर्वं प्रचोदितः सूतः पितामेलो महर्षणः शिष्यो व्यासस्य मेधावी ब्राह्मणेष्विदमुक्तवान् तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथा तथम् तुभ्यं शौनकपृच्छते कथयिष्याम्य शेषेण सर्वपापप्रणाशनम् आस्ति कस्य पिता ह्यासीत् प्रजापतिसमः प्रभुः ब्रह्मचारी यथाहारस्तपस्युग्रेरतः सदा जरत्कारुरिति ऊर्ध्वरेतामहातपाः याया वराणाम् प्रवरो धर्मज्ञः संशितव्रतः स कदाचिन्महाभागस्तपो बलसमन्वितः चचारपृथिवीम् सर्वाम् यत्र सायम् गृहो मुनिः तीर्थेषु च समाप्लावम् कुर्वन्नटति सर्वशः चरन्दीक्षा महातेज दुश्चरामकृतात्मभिः वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः इतस्ततः परिचरन् दीप्तपावकसप्रभः अटमानः कदाचित्स्वान् सददर्श पितामहान् लम्बमानान् महागर्ते पादरूर्धरवाखा तानब्रवीत्स दृष्ट जरत्कारु पिता महां के भो वलंब्यस्ो मुखा वीरण स्तंबना सर्वतः परिभक्षिते मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना पितर ऊचुः याया वरा नाम वयम् ऋषयः संशितव्रताः सन्तानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् अस्माकम् सन्ततिस्त्वे को मन्दभाग्योऽल्पभाग्यानाम् तपएवसमास्थितः एव समास्थितः न स पुत्राञ्जनयितुम् दारान्मूढश्चिकीर्षति तेन लम्बामहे अनाथास्तेननाथेन यया दुष्कृतिनस्तथा ज्ञातुमिच्छामहे ब्रह्मान् को भवानिह न स्थितः किमर्थम् चैव नः शोच्याननु शोचसि सत्तमा जरत्कारुरुवाच मम पूर्वे भवन्तो वै पितरः स पितामहाः ब्रूत करवाण्यद्य जरत्कारुरहं स्वयम् पितर ऊचुः यतस्वयत्नवान्स्तात सन्तानाय कुलस्य नः आत्मनोऽर्थे स्मदर्थे च धर्म इत्येव वा विभो न हि धर्मफलैस्तात न तपोभिः सुसञ्चितैः तां यत्नम् सन्तत्यां च मनः कुरु पुत्रकास्मन्नियोगात्त्वमेतन्नः परं जरत्कारुरुवाच न दारान्वैकरिष्येऽहम् न धनम् जीवितार्थतः भवताम् तु हितार्थाय करिष्येदारसङ्ग्रहम् समयेन च कर्ताह मनेन विधिपूर्वकम् तथा युपल कैश्येन्य ह्यहम स नाया भविमे दित्ता चंधु भैक्षता कन्या मुपयंस्ये विधान दरिद्रा ही मे भारा को दातिशेष तु यदि कश्चित्प्रदास्यति एवम् दारक्रियाहेतोः प्रयतिष्ये पितामहाः अनेन विधिना शश्वन् न तत्र चोत्पत्स्यते जन्तुर्भवताम् तारणाय वै शाश्वतम् स्थानमासाद्य मोदन्ताम् पितरो मम इति श्रीमहाभारते आदिपर्वणि आस्तिकपर्वणि जरत्कारुतत्पितृसंवादे त्रयोदशोऽध्यायः